अथ अष्टासप्तम् दशकम् त्रिदिव वर्धकि वर्धित कौशलम् समस्त विभूतिमत् जलधिमध्यगतम् त्वमभूषयो नवपुरं वपुरम् वपुरञ्चित रोचिषा ददुषिरेवत विधिशासनात् महितमुत्सव घोषमपूपुषः समुदितैर्मुदितैः सह यादवैः अथ प्रणयिनीम् त्वयि देव सहोदरः स्वयमदित्सतः चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् चिरधृत प्रणया त्वयि सपदि काङ्क्षितभङ्ग समाकुला तव निवेदयितुम् द्विजमादिशत् स्वकदनम् कदनङ्गविनिर्मितम् द्विजसुतोऽपि चतुर्णमुपाययौ तव पुरम् हि दुराश दुरासदम् मुदमवाप सच च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी त्वयि समुत्सुकया निज रहितया हितया प्रहितोऽस्म्यहम् तव हृतास्मि पुरैव गुणैरहम् हरति माम् किल चेदि नृपोऽधुना पालय मामिति प्र जगदे जगदे अशरणाम् यदि माम् त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् इति गिरा सुतनो रतनोद्भृशम् सुहृदयम् हृदयम् तव कातरम् अकथयस्त्वमथैनमये सखे तदधिका मम मन्मथ वेदना नृपसमक्षमुपेत्यहराम्यहम् तदयिताम् दयितामसि तेक्षणाम् प्रमुदितेन च तेन समम् तदा रथगतो लघुकुण्डिन मेयिवन् गुरुमरुत्पुरनायक मे भवन् वितनुताम् तनुताम् निखिलापदम् इत्यष्टासप्तम् दशकम्